चिरित्रानुलेपना देवी चित्राभरणभूषिता चिरित्रभ्रमरपाणिस्ता महामारीति गीयते इत्येता मूर्तयो देव्याया ख्याता वसुधाधिप जगन्मातुश्चण्डिकायाः कीर्तिताः कामधे नवः इरम् रहस्यम् परमम् न तस्मात् सर्वप्रयत्नेन देवीम् जपनिरन्तरम् स सप्तजन्मार्चितैर्घोरैर्ब्रह्महत्या समैरपि पाठमात्रेण मन्त्राणाम् उच्यते सर्वकिल्भिषैः देव्या ध्यानम् मयाख्यातम् दुःख्यात् दुःख्यतरम् महत् तस्मात् सर्वप्रयत्नेन सर्वकामफलप्रदम् एतस्यास्त्वम् प्रसादेन सर्वमान्यो भविष्यसि